अथ सप्ताशीतितमोऽध्यायः वैशम्पायन उवाच स्वर्गतः स तु राजेन्द्रो निवसन् देववेश्मनि पूजितस्त्रिदशैः साध्यैः मरुद्भिर्वशुभिस्तथा सञ्चरन् पुण्यकृद्वशी अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः स कथान्ते तत्र शक्रेण स यदा स पूरुस्तव रूपेण राजन् जराङ्गृहीत्वा प्रचचार भूमौ तदा स राज्यम् तस्मै त्वया किमुक्तः कथयेह सत्यम् ययातिरुवाच गङ्गायमुनयोर्मध्ये कृत्स्नोऽयम् विषयस्तव मध्ये पृथिव्यास्त्वम् राजा भ्रातरोऽन्याधिपास्तव न च कुर्यान्नरो दैन्यम् शाठ्यम् क्रोधम् तथैव च जैह्यम् च मत्सरम् वैरम् सर्वत्रैव न कारयेत् मातरम् पितरम् चैव विद्वांसञ्च तपोधनम् क्षमावन्तम् च देवेन्द्र नावमन्येत बुद्धिमान् शक्तस्तु क्षमते नित्यम् अशक्तः क्रुध्यते नरः दुर्जनः द्वेष्टि दुर्बलो बलवत्तरं, रूपवन्तमरूपी च धनवन्तम् च निर्धनः अकर्मी कर्मिणम् द्वेष्टि धार्मिकम् च न धार्मिकः निर्गुणो गुणवन्तम् च शक्रैतत्कलिलक्षणम् अक्रोधनः क्रोधनेभ्योऽविशिष्टः तथातितिक्षुरतितितिक्षोर्विशिष्टः अमानुषेभ्योऽ मानुषाश्च प्रधानाः विद्वांस्तथैवाविदुषः प्रधानः आकृष्यमानो नाक्रोशेत् मन्युरेवति तिक्षतः आक्रोष्टारम् निर्दहति सुकृतम् नारुन्तु दस्यान्न नृशंसवादि न परमभ्याददीत ययास्य वाचा पर उद्विजेत न तां वदेदुषतीम् पापलोक्याम् अरुन्तुदम् परुषन्तीक्ष्णवाचम् मनुष्यान् विद्यादलक्ष्मीकतमञ्जनानाम् मुखे निबद्धाम् निरृतुम् वहन्तम् सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः वाक्सायकावदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति तान् पण्डितो दानं च मधुरा चंसाच्यवाच्य परुष क्वचि पूज्यादाचेत कदाचन श्रीमहाभारत आदिपर्ण संभवपर्वि उत्तरयायाते सप्ताध्या